अथर्वेदे चतुर्थाष्टके अष्टमोऽध्यायः ओ यज्ञायज्ञावो अग्नरे गिरा गिरा च दक्षसे प्रप्रभजममृतम् जातवेदसम् प्रियम् मित्रन्नशंसिषम् ऊर्जो नपातम् स हिनायमस्मयुर्दाशे माव्यदातये भुवद्वाजेष्वपिता भुवद्वृध उतत्राता तनूना मृषाह्यज्ञे अजरो महान्विभास्यर्चिषा अजस्रेण शोचिषा शोषु चच्छुचे सुधीतिभिः सुदीतिः महो देवान्यजसि यक्ष्यानुषक्तवक्रत्वोददंसनाः अर्वाजस्येऽङ्णुह्यज्ञे वसेरास्व वाजोतमम् स्व यमापो अद्रयो मना गर्भमृतस्य विप्रते, सहसायो यो मथितो जायते नृभिः पृथिव्या आयफ आयः पप्रौ भानुना रोदसी उभे धूमे न धावते दिवि तिरस्तमो ओनदृश ऊर्ण्या स्वाश्यावा स्वरुषो वृषाः वृषाः बृहद्भिरग्ने अत्यभिः शुक्रेण भरद्वाहाजे समिधानो यविष्ठ्य रे पन्नः शुक्रदीदिः द्युवत्पाकदीदिः विश्वाः साङ्ग्रहपदर्विशामसि त्वमग्ने मानुषीणाम् शतम् पूर्भिर्यविष्ठपाह्यम् असः समेद्धारम् शतम् हिमाः स्तोत्रभ्यो ये च अस्य रायस्त्वमग्नेरथेरसि विदा गाधन्तु चेतुनाः वर्षितो कन्दनयम् वर्तृभिष्पमदब्धैरप्रयुत्पभिः अग्नेहेळांसि दैव्याः युजोधिनो देहे वा निह्वरांसित आसखायः स वर्दुघाम् धेनुमजद्भमुपनव्यसा वचाः सृजद्भमनपस्फुराम् या श्रद्धा आयमारुता यस्वभा नवेश्रवो मृत्युसुक्षत या मृळीके मरुता अन्दुराणाञ्या सुम्नैरे एवया भरद्वा आजाया वधुक्षतद्विता धेनुम् च विश्वदोहसमिषम् च विश्वभोजसम् तम् व इन्द्रम् न सुक्रतुम् अर्यमणन्नमन्द्रम् सुप्रभोजसंविष्णुन्नस्तु स आदिशे वेषम् सर्धो न मारुतम् तु विष्मण्यनर्वाणम् भूषणम् संयथाशत संसहस्राकारिषच्चर्षणिभ्यः आविर्गोढावसूकरत् सुवेदा नो वसूकरत् आमापोषन्तु भद्रवशंसि अभा अर्यो अरा आदयः मा का आकम्बीरमुद्ब्रुहो वनस्पतिमशस्तेर्विहिनीनशः मोतसूरो अह एवाचनग्रीवा आदधते वृकमस्तु सख्यम् अच्छिद्रस्य द धन्वतः सुपूर्णस्य द धन्वताः परोहिमज्जैरसि समो देवैरुतश्रिया अभिक्षः पोषन्मृतनाशु न स्ममवा आ नो न यथा पुरा वामे वामस्य धोतयः प्रणे एतिरस्तु सूदृताः देवस्य वामरुतोमर्त्यस्य वेजानस्य प्रयज्यवः सद्यश्चेद्यस्य च परिद्यान् देवो नैति सूर्याः ेषंसवो नाम यज्ञम् मरुतो वृत्रहंसवो ज्येष्ठम् वृत्रहंसवाः सकृद्धौ रजायत सकृद्भूमिरजायत कृष्ण्या दुग्धम् सकृत्पयस्तदन्यो नानुजायते सूक्तान्ते तृणान्यज्ञावरण्ये एवोदके पिपा यत्स्तृणैरध्ययनन्तदधीतम् स्तृणानि भवते भव वापी कूपतटागानाम् समुद्रम् गच्छस्वाहा स्तुषेजनम् सुरतन्नव्यसेऽभिर्गेर्भिर्मित्रा वरुणासुम् नयन्ताः त आगमन्तु त इह श्रुवन्तु सुक्षत्रासो मित्रो अग्निः विशो विषईज्यमध्वरेष्वृत्तक्रतुमरतीयुवर्त्योः दिवशिशुंसहसः अरुषस्य दुहितराभिेऽस्तृभिरन्याभिपिशे सूरो अन्या नितस्तुराः विचरन्ति पावके मन्मश्रुतम् न क्षतरुच्यमाहे प्रभायुमच्छाः बृहदे मनीषा बृहद्रयिम् विश्ववारम् रथ प्राम् युतद्यामानियुतः पत्यमानः कविः कविमियक्षसि समेव पुच्छदश्विनोर्यो रथो विरुक्मान्मनसायुधानः येन न राना सत्येषयध्यै वर्तिर्याधस्तनयायत्मने च पर्यन्यमाता वृषभा पृथिव्याः पुरे शाणिजिन्मतमप्याहि सत्यश्रुतः कवयो यस्य पावेरवे कन्याचित्रायुः सरस्वती वीरपत्नीधियन्धात् ज्ञाभिरच्छिद्रम् शरणम् सजोषा दुराधर्षम् गृणते शर्मजम् सत् पथः पथः परिपतिम्बस्या कामेनकृतो अभ्यानलर्कम् स नोरासच्छरुधश्चन्द्राग्राधियम् धियम् शेषधाधिप्रपूषा प्रथमभाजै यशसं वयोधाम् सुपाणिम् देवम् सुभगस्तिब्रह्मम् होतायक्षद्यलतम् अस्त्या नामग्निःष्टालम् सुहमम् विभावा भुवनस्य पितरम् गीर्भिराभिरुद्रम् दिवा वर्धया रुद्रमक्तौ रहन्तपृष्पमदरम् सुषुम्नपृथग्भुवेमेषितासाः आयुवानः कवयो लिग्ज्ञासो मरुतो ग्रन्थगृणतो वरस्या अचित्रं चिद्धि जिन्वथा वृथन्त इत्था रक्षन्तो नरो अंगिरस्वत। प्रवीराज प्रहरसे तु राजा यूथे पशुरक्षिरस्तम् स विस्पृशितम् विश्रुतस्य स्त्रुभिर्ननाकम् यो रजांसि ममे पार्थिवानित्रिश्चिद्विष्टर्म न वे बाधिताय तस्य ते शर्मन्नुपद्यमाने राजामदेम तन्वातना च तन्नोहिर्बुज्ञो अद्भिरर्तैस्तत्पर्वतस्तत्सविता च नो राज तदोषधीभिरभिरातिशाचो भगः पुरम् निर्जिन्वतु नो नो रलिम् रथ्यम् चर्षणि प्राम्बुरुरीरम् महरतस्य गोपाम् शयम् दाता जनयेन जनांस्कृतो अदेवीरभिचक्रमामभिष आ देवीरभ्या स्नवाम भृेवो नमो मदितिम् नमोऽर्मृलीकाजवरुणम् मित्रमग्निम् अभिक्षतामर्यवणम् सुषेवम् रात्रौन् देवान् स पितारम्भकम् च सुज्योतिषः सूर्यरक्षपितृननागास्ते सुमहो हि देवान् विजन्मा नो यदशापः सत्याः स्वर्वन्तो महस्करथोपरिभो यथा आनोऽस्मे क्षया यति क्षणे अनेहः आ नो रुद्रस्य सूनवो नवन्ता मद्याहूतासो वसवो धृष्टाः यदीमर्भे महति वा हितासो बाधे मरुतो अह्वामदेवान् मिम्यक्षयेषु रोदसीनु देवीसि शक्तिभूषा अभ्यर्थयज्वा श्रुत्वा हवम् मरुतो यद्धया स भूमा आरेदन्ते अध्वनि प्रविक्ते अभित्यम् वीरङ्गिर्पणसमर्चेन्द्रम् ब्रह्मणाचरितर्नवेन श्रवति ध्वपस्तवा नो रासद्वाजा उपमहो गृणानः ओ मानमापो मानुषीरमृध्वन्ता ततोकायतनयाजसंयोः योऽयम् हिष्ठाभिषजो मात्रतमा विश्वस्य स्थातुर्जगतो चरित्रेः आनो देवः सभितात्रायमाणो हिरण्यपाणिर्यशतो जगम्यात् यो दत्र वाङ्कुशोरप्रदेकम् योर्नुते दाशुषेवार्याणि उत त्वम् सोऽ सहसो नो अद्या देवाम् अस्मिन्नध्वरेव वृत्त्याः ्यामहन्ते सदमिद्रातौ तव स्यामग्नेऽवसा सुवीराः उतत्यामेहवमाजज्ञातन्ना सत्या धेभिर्युवमङ्गविप्रा अत्रिन्नमहस्तमसोममुक्तन्तोर्वतन्नरातुरितादभीके तेनोः राजोऽद्युमतो वाजपतो दातारो भूतनृवतः अशस्यन्तो दिव्याः पार्थिवासो गोजाता अप्यामृता च देवाः तेनो रुद्रः सरस्वती सजोषा वीह्ष्मन्तो विष्णुर्मृणन्तु वायो रुभुक्षा वाजो दैव्योऽभिधाता पर्जन्या वातापिप्यतामिषन्नः उतस्य देवः स पिता भगो नोपान्नपादवतुदानुपप्रीः ष्टा आ देवेभिर्जनिभिः सजोषाद्यौर्देवेभिः पृथिवे समुद्रैः उत नो हिर्बुध्नः शृणो त्वज एकपा पृथिवी समुद्रः विश्वे एदेवारतावृतोनास्तुता मन्त्राः कविशस्ता अवन्तो एवानपातो मम तस्य देभिर्भरद्वाजा अभ्यर्चञ्चर्कैः नाहुतासो वसपो धृष्टा विश्वे स्तुतासो भूता यजत्राः उदुत्यच्चक्षुर्म हि मित्रयोराम् एति प्रियम् वरुणयोरदब्धम् ऋतस्य शुचिदर्शतमनीकम् ऋक्मो न दिव उदिता व्यद्यौत् वेदयस्त्रीणि विदथान्येषाम् देवानाञ्जन्म सनुतरात विप्राः ऋजुमर्तेषु वृदिना तपश्यन्नभिचष्टे सूरोः अर्य एवान् स्तुष वो मित्रं गोपानदितिम् मित्रम् वरुणम् सुजातान् अर्यमणम् भगमदब्धीते नोचे सन्यः पावकान् विषादसः ूनः सु क्षत्रान् क्षयतो दिवो नृनादित्यान्याम्यदितिन्दुवो यो जितः पृथिविमातरध्रुगग्ने भ्रातर्वसवो मृलता नः विश्व आदित्या अदिते सजोषाः अस्मभ्यम् शर्म बहुलम्बियन्त मा नो मृगाय वृक्ये समस्मा अघायते रीरसतायजत्राः योऽयम् हिष्ठारथ्यो नस्तनूना योऽयम् दक्षस्य वचसो बभूव माम एनो अन्यकृतम् भुजे ममा तत्कर्मवसभो यच्च यध्वे विश्वस्य शिक्षयथ विश्वदेवा स्वयम् रिपुस्तम्बम् रेलिशिष्ट न म युग्रम् न नमो देवेभ्यो नम ईश एषाम् कृतञ्जिरे नमसा विपासे। ऋतस्य वो रथ्यः पूतदक्षा नृतस्य पस्य स दो अदब्धान् ताम् आनमोऽभिरुदक्षसोदृन्विश्वान्वान मे महो यजत्राः तेः श्रेष्ठवर्चसस्तौ नः स्थिरो विश्वानि दुहितानयन्ति सुक्षत्रासो वरुणो मित्रो अग्निरतधेतयो वक्मराजसत्याः तेन इन्द्रः पृथिवे क्षामवर्धन् पूषाभगोहरितिः पञ्च जनाः सुशर्माणस्वसस्व नीथा भवन् वृदस्वत्रासस्व गोपाः नो सद्मानम् दिव्यम् नंसि देवाभारद्वाजस्व मदीयाति होताः आसानेऽभिर्यजमानो मिजेधैर्देवानाम् जन्मवसूयुर्ववन्द अपत्यम् मृदिनम् रिपुंस्तेरमग्नेतुराध्यम् दविष्ठमस्य सत्पदे कृते सुगम् ग्रावाणः सोमनोहिकम् सखि त्वनाय वा पशुः जहिन्या अत्रिणम् पणिमृपोहिषः यूयम् हिष्ठा सुदानव इन्द्रज्येष्ठा अभिद्यवः कर्ता नो अध्वन्ना सुगङ्गोपा अमा अपि पन्था मगन्महि स्वस्ति गामनेहसम् येन विश्वाः परिद्विषो भृणक्तिविन्दते वसु न तद्यपा न पृथिव्यानुमन्येन यज्ञेन नो दशमीभिराभिः उब्जन्तु तम् सुभ्रा अः पर्वता याजस्य जष्टा ति वायोजो मरुतो मन्यते नो ब्रह्म वायः क्रियमाणम् निरित्सात् तपोंसि तस्मै रुचिरा सन्तु ब्रह्म द्विषमभितं शोचतुद्योः किमङ्गत्रा ब्रह्मणः सोम गोपाञिमङ्गत्राभिषस्तिपान्नाः किमङ्गनः पश्यसि विद्यमानान् ब्रह्मद्विषेतपुषिम् हेरिमस्य अवन्तु मा भुषसो जायमाना अवन्तु मा सिंहवः पिन्वमानाः अवन्तु मा पर्वतासो ध्रुवासो वन्तु मा पितरो देवहूतौ विश्वदानीं सुमनसस्यामपश्ये मनुसूर्यमुच्चरन्तम् तथा गसुपतिर्वसूनाम् देवाङ्गोहादो वसागमिष्ठः इन्द्रो नेतिष्ठमवसागमिष्ठः सरस्वती सिन्धुभिः पिन्वमाना पर्जन्यो न ओषधे ब्रह्म यो बुरग्निः सुशंसस्वहवः विश्वे देवा समागतशृणुताम इमम् हवम् एदम्बर्हिर्निषीदत यो वो देवाघृतस्तु ना हव्येन प्रतिभूषते तम् विश्व उपगच्छथ उवनः सूनभोगिरः शृण्वन्वहृतस्य ये सुमृळीका भवन्तु नः विश्वे देवारतावृथऋतुभिरृहवनः श्रुताः दुषन्तान्युज्यम् पजाः स्तोत्रमिन्द्रो मरुद्गणस्पष्टृवान्मित्रो अर्य वा इमा हव्या युषन्तनः इमं अग्ने अध्वरम् होतर्वयुनशोयज इति त्वाम् विश्वे ए देवाशृणुहवम् दे मेजे ये अन्तरिक्षेय उपद्यभिष्ठ ये अग्निजिह्वा उत पायजत्रा आसद्यास्मिन्वर्हिषिमादयध्वम् विश्वे ए देवा मम शृण्वन्तु यज्ञिया उपे रोदसी अपान्नपाच्च मन्म मा वो वचांसि परिचक्ष्याणि वोचम् सुन्देष्वि द्वो येके के चज्मा महिनो अहिमायादिवो जज्ञरे अपाम सधस्थेः ते अस्मभ्यमिषये विश्वमायुहोक्षपहुस्रावश्यन्तु देवाः अग्निपर्जन्यापवतन्धियम् एस्मिन्हवे सुहवासु स्तुतिन्नाः इडाः मन्यो जनयद्गम्भमन्यः प्रजापतेरिश आधत्तमस्मे ीर्णे बर्हिषि समिधाने अर्णौ सूक्ते न महा नमसापि वासे अस्मिन्नो अद्य विदधे यत्रा विश्वे एदेवाहविषिमादयध्वम् वयमुत्त्वापथस्पते रथन्नवाजसातये धिये पूषन्न युज्महि अभिनो नर्यम्बसुवीरम् प्रयत दक्षिणम् वामङ्ग्रहपतिन्नय अरित्सन्दञ्चिदाघृणे पूषन्दानायचोदय पणेश्चिद्भिम्रदामनाः विपथो वाच सातयेति नुहि विमृधो जहि साधन्दामुग्रनोधियाः परितृन्तिपणीनामारया हृदया कवे अथेमस्मभ्यम् रन्धय विपो ओषन्नारया तुदपणेरिच्छहृदि प्रियम् अचेएमस्मभ्यम् रन्धय याम्बोशम् ब्रह्मचोदने पाराम् विभर्ष्याघृणे तया आ समस्य षडय वारिखि गिराकृणो या ते अष्ट्रागो ओपशाघृणे पशुसाधने तस्या आस्ते सुम्नमेमहे उतनो ओघोषणि माजसा सम्पोषन्विदुषा न यो अञ्जसानुशासति य एवेदमिति ब्रवत् समुपोष्णागमे महि यो गृहाम् अभिशासति इम एवेति च ब्रवत् कोष्णश्चक्रन्नरिष्यति न कोशोपपद्यते नो अस्य व्यथते पविः यो अस्मै हविषाभिधन्नतम् पोषाभिमृश्यते प्रथमो विन्दते वसु पूषागा अन्वेतुनः पूषारक्षत्पर्वतः पूषावाजम् स नोतु नः पूषन्ननुप्रगायिः यजमानस्य सुन्वतः अस्माकम् स्तुवता मुता माकिर्ने षण्षन्वाकीम् संसाहारिके वटे अथारिष्टाभिरागैः शृण्वन्तम् पोषणम् भयमिर्यमनष्टवेदसम् ईशा आनम् राज ईमहे पूषन्तमौ रते वयन्नरिष्ये मकदाचन स्तोतारस्त इह स्मसि परिपूषा परस्ताद्धस्तम् दधातु दक्षिणम् पुरम् नो नष्टमाजतु एहि माम् विमुचो न पादाघृणे संसदावहै रथेरथस्य नो भव रथितमङ्कपर्दिनमीषा रायः सखायमीमहे रायो धारास्याघृणेवसो राशिरजाश्व धीवतो धीवतः सखा पूषणन्वा अजाश्वमुपस्तोषामपादिनम् स्वसूर्योदार उच्यते मातुर्दिधिषुमब्रवम् स्वसूर्जार शृणोतु नः भ्रातेन्द्रस्य सखा मम आजासः रथे निशृम्भास्ते जनश्रियम् देवं वहन्तु बिभ्रतः य नमादि भारिति भादिति न तेन देव आदिशे उत घास रथितमः सख्या इन्द्रो वृत्राणि जिघ्नते उता दःपरुषेकविशूरश्चक्रम् हिरण्यम् देहीरयद्रथितमः एतद्यत्वा आपुरुष्टुतब्रवामदश्रमन्तु मह तत्सु नो मन्मसाधय इमम् च नो गवेषणम् सातये एषधो गणम् आते स्वस्तिमीमः आरे अघामुपा वसुम् अद्या च सर्वदातयेष्वश्च सर्वदातये इन्द्रानुभूषणा वयम् सख्याय स्वस्तये उभे मवाज सातये सोममन्य उपासदर्पातवेतम्भोः सुतम् करम्भमन्य इच्छते अजा अन्यस्य बह्नयो हरे अन्यस्य सम्भृता ताभ्याम् वृत्राणि जिघ्नते यदिन्द्रो अनयद्रितो महिरपोरुषन्तमः तत्र पोषा भवत्स चा ताम् पोष्णस्व मतिम् वयम् वृक्षस्य प्रभजामिव इन्द्रस्य चारभामहे उत्पोषणै युवामहेभीषोङ्पसारथिः मह्या इन्द्रम् स्वस्तये शुक्रन्ते ए अन्यद्य रतन्ते ए अन्यद्विषुरूपे अहनीद्यौरिवासि विश्वाहि माया अवसि स्वधावो भद्राते पूषन्निहरातिरस्तु अजाश्वः पशुपा वाजपश्चोधियञ्जिन्वो भुवने विश्वे अर्पितः अष्ट्राहम् पूषाचिचिरामुद्वरे बृहत्सञ्चक्षा आडो भुवना ईयते यास्ते पूषन्ना वो अन्तः समुद्रेहिरण्यजैरन्तरिक्षेतरन्ति ताभिर्यासिदोत्याम् सूर्यस्य कामेन कृतश्रव इच्छमानः पूषा सुबन्धुर्दिवः पृथिव्या इरःस्पृतिर्मघवादस्मवर्चाः यम् देवासो अददुः सूर्यायै कामेन कृतम् तव संस्वञ्चम् प्रणवो चासु तेषु वीर्या आयानि चक्रथो हतासो वाम् पितरो देवशत्रव इन्द्रा आज्ञीजीवथो युवम् मणित्था महिमा वामिन्द्रा आज्ञेपनिष्ठः समानो वाञ्जनिता भ्रातरा युवञ यमा विहेह मातरा को किमांसा आसुते इन्द्रान्वा अग्नि अवसेह वज्रिणा वयम् देवा ह वामहे य इन्द्राग्निसुतेषु वांस्तभत्ते श्रुता वृथा जोषवानम् वदतः वज्रहोषि न देव भसतश्च इन्द्राग्नीको अस्य वान्दे भौमर्तश्चिकेतति विशोजो अश्वान्ययुजान ई यथ एकः आरथे इन्द्राग्ने अपादियम् पूर्वागात्पद्वतेभ्यः हिते शिरो जिह्वजापावदच्चलत्रिंशत्पदान्यक्रमेण इन्द्राग्नेराहितन्वतेन रोधन् वा निबाहोः मानो अस्मिन् महाधने परावर्तङ्गविष्टिषो इन्द्राग्नेतपन्ति माघार्यो अरातयः अपद्वेषाम् स्याकृतम् युजुतम् सूर्या दधि इन्द्राग्ने युवोरपि वसु दिव्या निपार्थिवा आन इह प्रयच्छतम् रजिम् विश्वायुपोषसम् इन्द्राग्ने उक्थवाहसा स्को मेऽभिर्हवनः श्रुता विश्वाभिर्गेऽभिरागतमस्य सोमस्य पीतजे शदृत्रमुत अग्ने स विरज्यन्तासंयस्य भूरेः सहस्तमासहसा वा जयन्ताः तायो दिष्टमभिगा इन्द्र नूनमपस्वरुषसो अग्न ऊर्शस्वरुषस इन्द्र चित्रा अपोगा अग्ने युवसे नियुत्वान् आवृत्रहणावृत्रहभिः शुष्मैरिन्द्रयासन्नमोऽभिरग्ने अर्वाक् युवम् राजोभिरकमेभिरिन्द्राग्नेः अस्मे भवतमुत्तमेभिः आहुवेययो ऋदम् पप्ने विश्वम् पुरा कृतम् इन्द्राग्नीनमर्धतः उग्राभिघनिनामृध इन्द्राग्ने हवामहे तानो मृणात ईदृशे हतो वृत्राण्यार्या हतो दासानि सत्पदी हतो विश्वा इन्द्राग्नेयुवामिमे एभिः स्तोमा अनुषत पिबतम् शम्भुवा सुतम् या वांसन्ति पुरस्पृहो नियुतो दाशुषे नरा इन्द्राग्नेताभिरागतम् ताभिरागच्छतम् नरोपेदम् सभनम् सुतम् इन्द्राग्नेसोमपीतये तमेष्पजो अर्चिशापना विश्वापरिष्पजत कृष्णा कृणोति जिह्वया य इद्ध आविवा सति सुम्नमिन्द्रस्य मर्त्याः द्युम्नाय सुतराः अपह ता नो वाजवतीर्ष आशोऽन्पिवृतमर्वतः इन्द्रमग्निम् च वोढवे उभावाहमिन्द्राग्नी आहुवध्याः उभाराधसः सहमादयध्यैः उभा सातये हुवेवा आनो गव्येभिरश्वैरूपैरुपगच्छतम् सखा आयौ देवौ सख्याय शम्भुवे इन्द्राग्नीताह वामहे इन्द्राग्ने शृणुतम् ह व्यजमानस्य सुन्नतः वीतम् हव्यान्यागतम् पिबतम् सौम्यम् मधो यमदनाद्रभसमृणच्युतम् दिवो दासम् वध्यश्वाय दाशुषे या शश्व मा चखादापसम् पडिन्ता ते एधाणि तविषा सरस्वती इयम् शुष्मे एभिर्भि सखा इवारुजत्सानुकिरीणान्दविशेभिरोर्मिभिः पारावतघ्नेमवशे सुरक्तिभिः सरस्वती मा विवासेव सरस्वति देवनि दो निर्हय विश्वस्य विषयस्य माजिनाः उदक्षिणेभ्यो मनीरविन्दो विषमेभ्यो अश्रवो वाजिनीवति प्रणो देवी सरस्वती वाजे धर्वाजिनीवती धीनामभिद्यवतु यस्पा देवि सरस्वत्युपब्रूते धने हि रे इन्द्रन्नवृत्रतूर्ये त्वम् देवि सरस्वत्य वाजेषु वाजिनि प्रदा आपूषे वनः उत स्या रः सरस्वती घोराहिरण्यवर्तनिः अनन्तो अह्तस्त्वेषश्चरिष्णुरुणवः अमश्चरतिरोरुवत् सा नो विश्वा अतिद्विषस्पसृरन्याहृता वरी अरन्न हे पापप्रुषे पार्थिवान्युरुजो अन्तरिक्षम् सरस्वती निरस्तात् त्रिषधस्था सप्तधातुः पञ्च जाता वर्धयन्ति वाजे वाजे हव्या भूत् प्रयामहिम्ना महिना श्रुते गितेद्युम्नेऽभिरन्या अपसामपस्तमा रथ इव बृहति विध्वने घृतोपस्तुत्या चिकितुषा सरस्वती सरस्वत्यभिनो ने शिवस्योमापस्फरे पयसामान आधक् ऋषस्वनः सख्या वेश्या